अथैकोनपञ्चाशः सर्गः सीताया वचनम् श्रुत्वा दशग्रीवः प्रतापवान् हस्ते हस्तं समाहत्य चकार सुमहद्वपुः स मैथिलीम् बभाषे वाक्यको विदः नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ उद्वहेयम् भुजाभ्याम् बरेस्थितः नीमम् बरे मृत्यं पापिबेयम् समुद्रम् च मृत्यम् हन्याम् रणे स्थितः अर्कम् तुद्याम् शरैस्तीक्ष्णैर्विभिन्द्याम् हिमहीतलम् कामरूपेण उन्मत्ते पश्य माम् कामरूपिणम् एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे क्रदपर्य रेत्रे बु सौम्यंरीज्य तीक्षण सरावण स्वल रेजे वैश्रवानुजह संरक्तन श्रीमांस्त कांचन भूषण क्रोधे न महता विष्टो नील दशास्यो विंशतिर्भुजो बभूवक्षणदाचरः सपरिव्राजगच्छद्महाकायो विहाय तत् प्रतिपेदे स्वकम् रूपम् रावणो राक्षसाधिपः रक्ताम्बरधरस्तस्थौ स्त्रीरत्नम् प्रेक्ष्य मैथिलीम् सतामसित केशान्ताम् भास्करस्य प्रभाविव रसनाभरणोपेताम् मैथिलीम् रावणोऽब्रवीत् त्रिषु लोकेषु विख्यातम् यदि भर्तारमिच्छसि मामाश्रयवरारोहे तवाहम्सदृशः पतिः माम् भजस्व चिराय त्वमहम् श्लाघ्यः पतिस्तव नैव चाहम् क्वचिद्भद्रे करिष्ये तव विप्रियम् त्यज्यताम् मयि भावः ज्याच्युतमसिद्धार्थम् रामं परिमितायुषम् कैर्गुणैरनुरक्तासि मूढे पंडितमानिनी यस्त्रियो वचनाद्राज्यम् विहाय स सुहृज्जनम् अस्मिन् वने वसति दुर्मतिः इत्युक्त्वा मैथिलीम् वाक्यम् प्रियार्हाम् प्रियवादिनी अभिगम्यसु दृष्टात्मा राक्षसः काममोहितः जग्राहरावणः सीताम् बुधः खेरोहिणीमिव वामेन पद्माक्षीम् मूर्धजयशुकरेण सह ऊर्वोऽस्तु दक्षिणेनैव परिजग्राहपाणिना तम् महाभुजम् प्राद्रवन्मृत्युसङ्काशम् भयार्तावनदेवताः स च मायामयो दिव्यः खरयुक्तः खरस्वनः प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः ततस्ताम्बरुषैर्वाक्यैरभितर्ज्य महास्वनः अङ्केनादाय सा गृहीतातिशुक्रोश रावणेन यशस्विनी रामेति सीता दुःखार्ता रामम् दूरम् वने तामकामाम् स कामार्तः पन्नगेन्द्रवधूमिव विचेष्टमानामादाय उत्पपाताथ रावणः ततः सा राक्षसेन्द्रेण वृशम् चक्रोशमत्येव भ्रान्तचित्ता यथातुरा हा लक्ष्मण महाबाहो गुरुचित्त प्रसादका ह्रियमाणाम् न जानीषे रक्षसा कामरूपिणा जीवितम् सुखमर्थम् च धर्म हेतोः परित्यजन् ह्रियमाणामधर्मेण मा माम् राघवन पश्यसि ननु परन्तप कथमेवम्विधम् पापम् नत्वं त्वम् शाधिः रावणम् विनीतस्य दृश्यते कर्मणः फलम् कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये त्वम् कर्म कृतवानेतत्कालोपहतचेतनः जीवितान्तकरम् घोरम् रामाद्यसनमाप्नुहि हन्तेदानीम् स कामातु कैकेयीबान्धवैः सह ह्रियेयम् धर्मकामस्य धर्मपत्नी यशस्विनः आमम् त्रये जनस्थाने कर्णिकारांश्च पुष्पितान् क्षिप्रम् रामाय शंसध्वम् सीताम् हरति रावणः हंससारथसङ्घुष्टाम् वन्दे गोदावरीम् नदीम् क्षिप्रम् रामाय शंसत्वम् सीताम् हरति रावणः दैवतानि च यान्यस्मिन् वने विविधपादपे नमस्करोम्यहन्तेभ्यो भर्तुः शंसतमाम् हृता यानि कानिचिदप्यत्र सत्त्वानि विविधानि च सर्वाणि शरणम् यामि मृगपक्षिगणानि वै ह्रियमाणाम् प्रियाम् भर्तुः प्राणेभ्योऽपि गरीयसी विवशा ते विदित्वा तु महाबाहुरमुत्रापि महाबलः आनेष्यति पराक्रम्य वैव स्वतहृतामपि विलपंती तदाकरुणा वाचो विलपन्ती सुदुःखिता वनस्पतिगतम् गर्ध्यम् ददर्शाय तलोचना सा रावणस्य वशङ्गता समाक्रन्दद्भयपरा दुःखोपहतया जटायो पश्यमार्य ह्रियमाणामनाथवत् अनेन राक्षसेन्द्रेणा करुणम् पापकर्मणा नैष वारयितुम् शक्यस्त्वया क्रूरो निशाचरः सत्त्ववाञ्जितकाशी च सायुधश्चैव दुर्मतिः रामाय तु जटायो हरणम् ममा लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः त्यादर्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनपञ्चाशत्